नूनं ते भ्रातरः सर्वे त्वत्कथाभिप्रजागरे रंस्यं ते वीरकर्माणि कथयन्तः पुनः पुनः नैव नः पार्थभोगेषु न धनेनोत जीविते तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते जीवितं मरणं चैव राज्यमैश्वर्यमेव च आपृष्टो मेसि कौन्तेय स्वस्ति प्राप्नुहि भारत बलवद्भिर्विरुद्धं न कार्यमेतत्त्वया नघ प्रयाह्य प्रयाह्यविघ्नेनैवाशो विजयाय महाबला नमोधात्रे विधात्रे च स्वस्ति गच्छह नामयम् ह्रीश्रीकीर्तिर्द्युतिः पुष्टिरुमालक्ष्मीसरस्वती इमा वै तव पान्थस्य पालयन्तु धनञ्जया ज्येष्ठापचायी ज्येष्ठस्य भ्रातुर्वचनकारकः प्रपद्येऽहं वसून् रुद्रानादित्यान्